श्री श्रीगणेशाय नमः श्रीगौरीशङ्कराभ्यां नमः अथ श्रीशिवमहापुराणे विद्येश्वरसंहितायां षोडशोऽध्यायः पार्थिवपूजनप्रकारा तत्फलानि च ऋषेवुचो पार्थिव प्रतिमा पूजाविधानं रुहित येन पूजाविधानेन सर्वाभीष्टम् अवाप्यते सूत्रवाच पुं सुसाधु युष्माभिः सदा सर्वार्थदायकम् सद्यो दुःखस्य शमनम् शृणोते प्रब्रवामवः अपमृत्यूहरम् कालम् मृत्युश्चापि विनाशनम् सद्य कलत्रपुत्रादि धनधान्य प्रदं द्विजा अन्नादिभोजम् वस्त्रादि सर्वं उत्पद्यते यतः ततो मृदादि प्रतिमा पूजाभीष्टे प्रदा भुवि पुरुषाणां च नारीणाम् अधिकारोऽत्र निश्चितम् नद्यान्तलागे कूपे वा जलान्तर् मृदमाहरेत् संशोध्य संशोध्य गन्धचूर्णेन प्रेषयित्वा सुमण्डपे हस्तेन प्रतिमां कुर्यात् क्षीरेण च सुसंस्कृताम् अङ्गप्रत्यङ्गकोपेताम् आयुधैश्च समन्विताम् पद्मासनस्थितां कृत्वा पूजेदादरेण हि विघ्नेशादित्यविष्णूनाम् अम्बाया च शिवस्य च शिवस्य शिवलिङ्गं च सर्वदा पूजये द्विज षोडशै उपचारिश्च कुर्यात् तत्फलसिद्धये पुष्पेण प्रोक्षणं कुर्यात् अभिषेकं समन्त्रकम् शाल्यन्नेनैव नैवेद्यं सर्वं कुडवमानतः गुहे तु कुडवं ज्ञेयं मानुषे प्रस्थमिष्यते देवे प्रस्थत्रयं योग्यम् स्वयम्भो प्रस्तपञ्चकम् एवं पूर्णफलं विद्यात् अधिकं वै द्वयं त्रयम् सहस्रे पूजय सत्यम् सत्यालोकम् लभे द्वि द्वादश अङ्गुलमायामम् द्विगुणं च ततोऽधिकम् प्रमाणम् अङ्गुलस्यैकं शिवम् इत्यूच्यते बुधै ततश्च भागप्रस्थः स्यात् तच्चतुष्कुणवम्मतम् दशप्रस्थम् शतप्रस्थम् सहस्रप्रस्थमेव च जलतैलादिगन्धानाम् यथायोग्यम् च मानतः मानुषास्य स्वयम्भूनाम् महापूजेति कथ्यते अभिषेकादात्मशुद्धि गन्धात् पुण्यम् अवाप्यते आयुस्तृप्ते च नैवेद्यात् धूपादर्थम् अवाप्यते दीपाज्ञानम् अवाप्नोति ताम्बूलाद्वर्गमाप्नुयात् तस्मात्मानधिकं शक्यं प्रयत्नेन प्रसाधयेत् नमस्कारो जपश्चैव सर्वाभिश्च प्रदौ भौ पूजान्ते च सदा भोगमोक्षार्थिभिन्न सम्पूज्य मनसा पूर्वम् कूर्यात् तत्तत्स नरः देवानां पूजया चैव तत्तद् लोकम् अवाप्नुयात् तदवन्ता तदवान्तरलोके च यथेष्टं भोग्यमाप्यते तद्विशेषान्तक्ष्यामि श्रुणुते श्रद्धया द्विजा विघ्नेश पूजय सम्यक् भूर्लोके भीष्टमात्मनुयात् शुक्रवारे चतुर्थ्यां च स्थितेश्रावण भद्रके भिषग्रुक्षे धनुर्मासे विघ्नेशम् विधिव यजेत् शतं पूजा सत्सङ्ख्यागति निर्वृजेत् देवाग्निश्रद्धया सर्वपाप प्रशमनम् तत्र दुरितनाशनम् वारपूजां शिवादीनाम् आत्मशुद्धि प्रदां विदुः तिथि नक्षत्रयोगानाम् आधारं सर्वकार्मिकम् तथा वृद्धि क्षयाभावात् पूर्णब्रह्मात्मकं विदुः उदयात् उदयं वारो थ्यादो दिवूजा पूर्णभोग प्रदानूना पूर्वभाग पितृणुक्त प्रशभागस्तुवा दिवा युक्त प्रशास उदयव्या्राह्य मध्या यदि सा तिथि देव कार्य ग्राह्य स्थिति वृक्षादि काशु सम्य विचार्यारादीन कूरिया पूजा जपादिकं। जपालक पूजारे वेदेश योजना पूर्भोजफल सिद्धिश्चाते तेन कर्मण मनोभा ज्ञान भोगाथ योजना पूजा शब्द विश्रुतको नित्यनैमित्तिकं कालात् सद्ये कामे सनुष्ठिते नित्यं मासं च पक्षं च वर्षं चैव वा यथा क्रमम् तत्तत् कर्मफलप्राप्ति तादृक् पापक्षय क्रमात् महागणपदे पूजा चतुर्थ्यां कृष्णपक्षे पक्ष पा पापक्षय करी भोगफलप्रदा चैत्रे चतुर्थ्यां चे पूजा च कृता मास फलप्रदा वर्ष भोगप्रदा ज्ञेय कृता वै सिंह भाद्रके श्रवण्यादित्यवारे च सप्तम्यां हस्तभेदिने माघशुक्ले च सप्तम्याम् आदित्ययजनं चरेत् ज्येष्ठभाद्रक सौम्ये द्वादश्यां श्रवणर्क्षके कृतं विष्णु यजनम् इष्टसम्पत्करं विदुः श्रवणे विष्णुयजनम् इष्टारोग्यप्रदम् भवेत् दवादीन् द्वादशानर्थान् साङ्गान् दत्त्वा तु यत्फलम् तत्फलम् समवाप्नोति द्वादश्यां विष्णुतर्पणात् द्वादश्यान् द्वादशान् विष्णु विप्रान् विष्णुद्वादश नामतः षोडशी उपचारै च यजेतत् प्रीतिमाप्नुयात् एवं च सर्वदेवानां तत्तद्वादश नामकै द्वादश ब्रह्म यजनम् तत्तत् प्रीतिकरं भवेत् कर्कटे सोमवारे च नवम्याम् मृगशीर्षके अम्बां यजे धूतिकाम सर्वभोगफलप्रदाम् आश्वयुक्षुक्लनवमी सर्वाभीष्टफलप्रदा आदिवारे चतुर्दश्याम् कृष्णपक्षे विशेषतः आर्द्रायाम् च महार्द्रायाम् शिवपूजा विशिष्यते माघ कृष्ण चतुर्दश्याम् सर्वाभीष्ट फलप्रदा आयुष्करी मृत्युहरा सर्वसिद्धि करीन्दृणाम् ज्यैष्ठमासे मार्द्रायाम् चतुर्दशी दिनेऽपि मार्गशी वा मार्गशीशादृगायां वा षोडशी उपचारकै तत्तन्मूर्तिशिवम् पूज्य तस्य वैपाददर्शनम् शिवस्य यजनं ज्ञेयम् भोगमोक्षप्रदृणां वारादिदेवयजनम् कार्तिके हि विशेष्यते कार्तिके मासि सम्प्राप्ते सर्वान् देवान् यजेद्बुध दानेन तपसा होमै जपेन नियमेन च षोडशै उपचारैश्च प्रतिमा विप्रमन्त्रकै ब्राह्मणानाम् भोजनेन निष्कामापिकरो भवेत् कार्तिके देव यजनम् सर्वभोगप्रदम् भवेत् व्याधीनां हरणं चैव भवेद्भूतग्रहक्षयः कार्तिकादित्यवारेषु नृणामादित्यपूजनात् तैलकार्पा सुधानातु भवेत् कुष्ठादिसञ्चयः हरितैकी मरीचीनां वस्त्र क्षीरादिदानतः चैव क्षयरोगे क्षयो भवेत् दीपसर्ष पदार्नाच्च अपस्मार क्षयो भवेत् कृत्तिका सोमवारेषु शिवस्य यजनम् नृणाम् महादाजिद्यशमनम् सर्वसम्पत्करम् भवेत् गृहक्षेत्रादिदानाच्च गृहोपकर्णादिना कृत्तिका भौमवारेषु स्कन्दस्य यजनान् नृणाम् दीपघण्टादिदानाद्वै वाक्सिद्धि अचिरा भवेत् कृत्तिका सौम्यवारेषु विष्णोर्वै यजनान् नृणाम् दध्योदनस्य दानम् च भवेत् कृत्तिक गुरुवारेषु ब्रह्मणो यजनार्धनै मधुस्वर्णाद्य भोगवृद्धिर्भवेन्दृणाम् कृत्तिकाय शुक्रवारेषु गजतुण्डस्य याचनात् गन्धपुष्पान्न दानेन भोगे वृद्धिर्भवेन्दृणाम् वन्ध्या सुपुत्रम् धते स्वर्णरौप्यादिदानतः कृत्तिकाय शनिवारेषु दिक्पालानाञ्च वन्दनम् दिग्गजानाम् च, च नागानाम् सेतुपानाम् च पूजनम् तम्बकस्य च रुद्रस्य विष्णो पापहरस्य च ज्ञानदम् ब्रह्मणश्चैव धन्वन्तर्यश्विनौस्तथा रोगापमृत्युहरणम् तत्काल व्यात्रशान्तिदम् लवणाय सतैलानाम् माषादीनाम् च दानतः त्रिकटूफलगन्धानाम् जलादीनाम् च है द्रवाणाम् कठिनानाम् च प्रस्थेन है स्वर्गप्राप्ति धनुर्मासे घुषकाले च पूजनम् शिवादीनाम् च सर्वेषाम् क्रमाद्वै सर्वसिद्धये शालन्यस्य हैवेश्यस्य नैवेद्यम् च समुच्यते विविधान्यस्य नैवेद्यम् धनुर्मासे विशिष्यते मार्गशीर्षेन्नदस्यैव सर्वमिष्ट फलम् भवेत् पापक्षयं चेष्टसिद्धिम् चारोग्यम् धर्ममेव च सम्यग् वेद परिज्ञानम् सदनुष्ठानमेव च इहा मुत्रे अन्ते योगम् च शाश्वतम् वेदान्तज्ञानसिद्धिं च मार्ग शीशोन्नदो लभेत् मार्गशीचे ह्युषकाले दिनत्रयम् अथापि यजे देवान् भोगकामो नानुर्मासिको भवेत् यावत् सङ्गमकालम् तु धनुर्मासो विधीयते धनुर्मासे निराहारो मास मात्रम् जितेन्द्रिय अ जपेद् विप्रो गायत्रीम् वेदमातरम् पञ्चाक्षरादिकान् मन्त्रान् पञ्चादा सुप्तिकम् जपेत् ज्ञानम् लब्ध्वा च देहान्ते विप्रो मुक्तिम् अवाप्नुयात् अन्येषाम् नरनारीणाम् श्रीस्नानेन जपेन च सदा पञ्चाक्षरस्यैव विशुद्धं ज्ञानमाप्यते इष्टमन्त्रान् सदा ज मा पाप क्षयं लभे धनुर्मासे विशेषेण महानैवेद्यमाचरे मरीच मरीचप्रस्थकेन च गणानाद्वादशम् सर्वं मध्वाज्य कुडवेन हि द्रोणयुक्तेन मुद्गेन द्वादश व्यञ्जनेन च वृतपक्वैरभूपै च मोदकै शालिकादिभिः द्वादशे चेदधि क्षीरे द्वादशे प्रस्थकेन च नारीकेलफलादीनाम् तथा गणनया सह द्वादशे क्रमकैर्युक्तम् षट्त्रिंशत् पत्रकैर्युतम् कर्पूरखुरचूर्णेन पञ्चसौगन्धिकैर्युतम् ताम्बूरयुक्तम् तुर्यतः महानैवेद्यलक्षणम् महानैवेद्यमेतद्वै देवतार्पणपूर्वकम् वर्णानुक्रमपूर्वेण तद्भक्तेभ्य प्रदापयेत् एवं च उदनु नैवेद्यात् भोमो राष्ट्रपतिर्भवेत् महानैवेद्यदानेन नरस्सर्गम् अवाप्नुयात् महानैवेद्यदानेन सहस्रेण द्व्यशः सत्यलोके च तल्लोके पूर्णम् मायूरवाप्नुयात् सहस्राणाम् च महानैवेद्यदानतः सद्दूर्धलोकमाप्यैव न पुनर्जन्मग् भवेत् सहस्राणाम् च तु महापूर्णम् तदुच्यते महापूर्णश्च नैवेद्यम् जन्म नैवेद्य भीष्यते जन्म नैवेद्यदानेन पुनर्जन्म न विद्यते ऊर्ध्वे मासे दिने पुण्ये जन्म नैवेद्यमाचरे सङ्क्रान्ति पात्रजन्मक्षये पर्णमास्यादिसंयुते अब्धजन्मदिने कुर्यात् जन्म नैवेद्यमुत्तमम् मासान्तरेषु जन्मक्षे पूर्णयोगादिनेऽपि च मेलने च शनिर्वापि तावत् सास्रमाचरेत् जन्म नैवेद्यदानेन जन्मार्पणफलम् लभेत् जन्मार्पणाचिवप्रीत स्वसायुज्यम् ददाति इदं तजन्म नैवेद्यम् शिवस्यैव प्रदापयेत् योनिलिङ्गस्वरूपेण शिवो जन्मा निरूपकः तस्माज्जन्म निवृत्त्यर्थम् जन्म पूजा शिवस्य हि बिन्दूनादात्मकम् सर्वम् जगत् स्थावरजङ्गमम् बिन्दुशक्ति शिवो नाद शिवशक्त्यात्मकम् जगत् नादाधारमिदम् बिन्दु बिन्द्वाधारम् इदम् जगत् जगदाधारभूतो हि बिन्दूनादो व्यवस्थितो बिन्दूनादयुतम् सर्वम् सकलीकरणम् भवेत् सकलीकर्णा जन्म जगत्प्राप्नोत्य संशयः बिन्दुनादात्मकम् बिन्दुना बिन्दुना लिङ्गम् जगत्कारणमुच्यते दे। बिन्दुदेवी शिवो नाद शिवलिङ्गम् तु कथ्यते तस्माज्जन्म निवृत्त्यर्थम् शिवलिङ्गम् प्रपूजयेत् माता देवी बिन्दुरूपा नादरूप शिव पिता पूजिताभ्याम् पितृभ्याम् तु परमानन्द एव हि परमानन्दलाभार्थम् शिवलिङ्गम् प्रपूजयेत् सा साशिवो शिवो जगत् पिता पितृशुश्रूषके नित्यम् कृपाधिक्यम् हि वर्धते कृपयान्तर्गतैश्वर्यम् पूजकस्य ददाति तस्मादन्तर्गदानन्द लाभार्थम् अनुपुङ्गव पितृमातृस्वरूपेण शिवलिङ्गम् प्रपूजयेत् भर्गे पुरुषरूपो हि वर्गा प्रकृतिरुच्यते अव्यक्तान्तरधिष्ठानम् गर्भ पुरुष उच्यते सुव्यक्तान्तरधिष्ठानम् गर्भ प्रकृतिरुच्यते पुरुषत्वादिगर्भो हि गर्भवान् जनको यतः पुरुषात् प्रकृतो युक्तम् प्रथमम् जन्म कथ्यते प्रकृतेर्व्यक्तताम् द्वितीयम् जन्म कथ्यते जन्म जन्तुर्मृत्युजन्म पुरुषात् प्रतिपद्यते अन्यतो भाव्यते अवश्यम् मायया जन्म कथ्यते जीर्यते जन्मकालाद्य तस्मा जीव इति स्मृतः जन्यते तन्यते पाशेर्जीवशब्दार्थ एव हि जन्म पाशनिवृत्त्यर्थम् जन्मलिङ्गम् प्रपूजयेत् भं वृद्धिम् गच्छति चर्भत्यर्थात् भग प्रकृतिरुच्यते प्राकृते शब्दमात्राद्यै प्राकृतेन्द्रियभोजनात् भगत्येदम् भोगमिति शब्दार्थो मुख्यप्रश्रुत मुख्ये भगस्तुप्रभृति भगवान् शिव उच्यते भगवान् भोगदाता हि नान्यो भोगप्रदायक भगस्वामी च भगवान् भर्ग इत्युच्यते बुधै भगेन सहितं लिङ्गम् भगम् लिङ्गेन संयुतम् इहात्र च भोगार्थम् नित्यभोगार्थमेव च भगवन्तम् महादेवम् शिवलिङ्गम् प्रपूजयेत् लोकप्रसविता सूर्य तच्छिह्नं प्रसवद् भवेत् लिङ्गे प्रदूते कर्तारम् लिङ्गिनम् पुरुषो यजेत् लिङ्गार्थ गमकम् चिह्नम् लिङ्गमित्याभिधीयते लिङ्गमर्थम् हि पुरुषम् शिवम् गमयति च शिवशक्त्यो चिह्नस्य मेलनम् लिङ्गमुच्यते स्व स्वचिह्नपूजनात्वित चिह्नकार्यम् न विद्यते चिह्नकार्यम् तु जन्मादि जन्माद्यम् विनिवर्तते प्राकृते पुरुषे चापि बाह्याभ्यन्तरसम्भवे षोडशे उपचारे च शिवलिङ्गम् प्रपूजयेत् एवम् आदित्यवारे हि निवर्तिका आदिवारे महालिङ्गम् प्रणवे नैव पूजयेत् आदिवारे अभिषेको विशेष्यते गोमयं गोचरम् क्षीरम् दध्याद्यम् पञ्चगव्यकम् क्षीराद्यम् च पृथक्त्यैव मधुना चेक्षुसारकै गव्यक्षीरन्न नैवेद्यम् प्रणवे नैव कारयेत् प्रणवम् धनुलिङ्गम् तु नादलिङ्गम् स्वयम्भुव बिंदुलिंगं तो यम तो प्रतिष्ठितिंग सैं गुरग्रह्लिंग पूजया निवन मुक्त न संशय शिव शिवस्य वक्त्या ही जन्म मुक्ति करेन्ुण दुर्द्राक्षारणा पारम अर्धम वैभूतिधारणा त्रिपादम् मन्त्रजाप्याच्च पूजय पूर्णभक्तिमान् शिवलिङ्गम् च भक्तम् च पूजम् मोक्षम् नर, यैमम् पठदे ध्यायम् शृणुयाद्वा समाहित तस्यैव शिव भक्तिच, च वर्धते सुदृढा द्विजा इति श्रीशिवमहापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् पार्थिवपूजाप्रकारादिवर्णनम् नाम षोडशोऽध्यायः श्रीगौरीशङ्करार्पणमस्तु